गर्गसंहिता खण्डं वन् गोलोकखण्डम् अध्यायम् फैव् विविध गोपीजन्मकथा रमा वैकुण्डवासिन्यश्वेदद्वीपसखी जनाः ऊर्ध्वं वैकुण्डवासिन्यस्तथा जितपदाश्रदा श्रीलोकाचलवासिन्यश्रीसख्योऽपि समुद्रजाः ता गोप्योऽपि भविष्यन्ति लक्ष्मीपतिवरा व्रजे काश्चिद्दिव्या अदिव्याश्च तथा त्रिगुणवृत्तयः भूमिगोप्यो भविष्यन्ति पुण्यैर्नानाविधैः कृतैः यज्ञावतारं रुचिरम् रुचिपुत्रं दिवस्पतिं मोहिदा प्रीतिभावेन वीक्ष्य देवजनस्त्रियः ताश्च देवलवाक्यन तपस्ते पुर्हिमाचले बक्र्या परमयाता मे गोप्यो भाव्या व्रजे विधे अन्धर्हि दे भगवति देवे दे धन्वन्तरौ भुवि ओषध्यो दुःखमापन्ना निष्फला भारते भवन् सिद्ध्यर्थं तास्तपस्ते पुस्त्रियो भूत्वा मनोहराः च दुर्युगे व्यदीते दु प्रसन्नो भूधरिः परम् वरम् श्रुत्वा नार्यो महावने तं दृष्ट्वा मोहमापन्ना ऊजुर्मर्ता भवात्र नः वृन्दावने मनोहराः भविष्यद स्त्रियोरासे करिष्यामि वचस्तवः श्रीभगवानुवाच भक्तिभावसमयुक्ता भूरिभाग्या वराङ्गना लता गोप्यो भविष्यन्ति वृन्दारण्ये पिधामः जालन्धर्याश्च यानार्यो वीक्ष्य वृन्दापदिम् ऊचूर्वायं हरिसाक्षादस्मा भन्तु वरो भवेद आकाशवागभूता साम् भजता सुरमापतिं यथा वृन्दा तथा यूयम् वृन्दारण्ये समुद्रकन्या श्रीमत्स्यं हरिं दृष्ट्वा च मोहिताः ता हि गोप्यो भविष्यन्ति वराद्व्रजे आसीद्राजा पृथुः साक्षान् ममांशश्चण्डविक्रमः जित्वा शत्रून् नृपश्रेष्ठो धराम् पामान् दुदोह बर्षिष्मदीभवस्तत्र पृथुम् दृष्ट्वा पुरस्त्रियः अत्र समीपमागत्य तवो अयं तु राजराजेन्द्रु पृथुलविक्रमः कथं वरो भवेन्नो वै तद्वदत्वं महामुने अत्रिरुच गोदोहं गुरु दाश्वद्यप्रतीयं पृथ्वीयं धारणामयी सर्वं दास्य दिवो दुर्गं मनोरथ महार्णवं मनोरथं प्रददुहुर्म मनःपात्रेण ताश्च तस्माद् गोप्यो भविष्यन्ति वृन्दारण्ये पिधामः कामसेनामोहनार्थं दिव्या अप्सरसोवराः नारायणस्य सहसा बभूवुर्गन्धमादने भर्तुकामाश्च ता आह्वसिद्धो नारायणो मुनिः मनोरथो वो भविधा व्रजोगोप्यो भविष्यथ स्त्रियस्तुतलवासिन्यो वामनं वीक्ष्य मोहिताः तपस्तप्ता भविष्यन्ति गोप्यो वृन्दावने विधे नागेन्द्रकन्याया शेषं रासार्थम् भविष्यन्ति व्रजे च पश्यपो वसुदेवश्च देवकीचादि परा शूरप्राणो ध्रुवसोऽपि देवकोऽवतरिष्यति वस्तुश्चैवोद्धवः साक्षाद् दक्षो क्रूरोदयावरः हृदिको धनदश्चैव हृदवर्मा त्वपां पदिः गदप्राजीन मरुदो ह्युग्रसेन उद तस्य रक्षां करिष्यामि राज्यं दत्त्वा विधानदः योद्धानश्चाम्बरीषप्रह्लादः सत्यगिस्तथा क्षीराब्धिशन्तनुसाक्षाद् भीमो द्रोणो वसूत्तमः शलश्चैव दासो धृतराष्ट्रो भगो रविः पाण्डुपूषा सदां धर्मो राजा युधिष्ठिरः भीमो वायुर्बलिष्ठश्च मनुस्वा यम्भुवोर्जुनः शतरूपा सुभद्रा च सविता कर्णयेवहि न गुलः सहदेवश्च स्मृतौ द्वावश्विनीसुतौ धादाबाह्लेकवीरश्च वक्निर्द्रोह्णप्रतापवान् दुर्योधनकलेरंशोऽभिमन्युः सोम एव च द्रौणिसाक्षात् विरूपं भूमौ भविष्यति इत्थं यतो कौरवाणामन्येषाम्भुभुजां नृणां कुले कुले च भवद स्वां शैस्त्रीभिर्मदाज्ञया ये एव तारा मे पूर्वं तेषां राज्ञो रमांशकाः भविष्य राजराज्ञेषु सहस्राणि चषोडश श्रीनारद उवाच युक्त्युक्कुर्वा श्रीहरिस्तत्र ब्रह्माणं कमलासनं दिव्यारूपां भगवतीं योगमायामुवाचः देवक्या सप्तमं गर्भं संनिगृह्य महामदे वसुदेवस्य भार्यायां कं सत्रा सभयात् नन्दव्रजे स्थितायां च रोहिण्यां नन्दपत्न्यां भवत्वं वै कृत्वेदं कर्म चाद्भुतं श्रीनारद उवाच श्रुत्वा ब्रह्मादेवगणैर्नत्वा कृष्णं परात्परां भूमिमाश्वास्य वाणीभिस्वधाम च समाययौ परिपूर्णतमं साक्षात् श्रीकृष्णं विद्धिमैथिलकं सादीनां वधार्थाय प्राप्तोऽयं भूमिमण्डले रोममात्रातनौ जिह्वा भवं त्विद्धं यदा नृप तदाभि श्रीहरेस्तस्य वर्ण्यते न गुणा महान् नभपदन्ति विह गायधाह्यात्मसमम् नृप तदा कृष्णगतिम् दिव्यां वदन्तीह विपश्चितः इति श्रीगर्गसंहितायाम् गोलोकखण्डे नारदबहुलाश्वसंवादे अवतारव्यवस्थनाम पञ्चमोऽध्यायः ओ अध्यायम् सिक्स् श्रीबहुलाश्व उवाच कंस कोऽयं दैत्यो महाबलपराक्रमः तस्य जन्मानि कर्माणि ब्रूहिदेवर्षिसत्तम श्रीनारद उवाच समुद्रमथने पूर्वं कालने मीमहासुरः युयूधे विष्णुना सार्धं युद्धे तेन हदो बलाद् शुक्रण जीवितस्तत्र सञ्जीविन्या जविद्यया पुनर्विष्णुं योद्धुकामा उद्योगं मनस्साकरोद तपस्तेपे तदा दैत्यो मन्थराचलसन्निधौ नित्यं दूर्वारसं पीत्वा भजन्तं पिदामहम् दिव्येषु शतवर्षेषुव्यतीतेषु पितामहः अस्ति शेषं वरं ब्रूहीत्युवाच तम् विष्णुमूला महाबलाः तेषां हस्तैर्न मे मृत्युपूर्णानामपि मा भवेद ब्रह्मवाजा दुर्लभोऽयं वरो दैत्य यस्त्वया पालान्तरे ते प्राप्तस्यान्मद्वाक्यं न मृषा भवेद् श्रीनारद उवाच कौमारेऽपि महामल्लयि युयोधः उग्रसेनस्य पत्न्यां कौ जन्म लेभे जरासंधो पुनः जरासन्धो मगधेन्द्रो दिग्जयाय विनिर्गदः यमुना निकटे तस्य शिबिरो भूदितस्तदः द्विभकुवलया भीडस्रद्विपसत्त्वभूद बभञ्जशृङ्खला सङ्घं दुद्राव शिबिरान् मदी निपातयन् स शिबिरान् गृहांश्च भूभृतस्तदान् रङ्गभूम्या माजगाम यत्र कंसोऽप्ययुध्यदा पलायितेषु मल्लेषु कंसस्थं तु समागतम् शुण्डा शुण्डे सङ्गृहीत्वा पादयामास भूतले पुनर्गृहीत्वा हस्ताभ्यां भ्रामयित्वोग्रसेनजः जरासन्धस्य सेनायां शिक्षेप सदयोजनं तदद्भुलं बलं दृष्ट्वा प्रसन्नो मगधेश्वरः अस्तिप्राप्ति ददौ गण्ये तस्मै कंसाय शंसिते अश्वार्भुदं हस्तिलक्षं रथानां च त्रिलक्षकम् अयुधं चैव दासीनं पारिबार्हं जरासुधः द्वन्द्वयोधी तथ कंसो भुजवीर्यमदोद्धतः माघिष्मदीं व्ययौ वीरोद्धैकाकी चण्डविक्रमः चाणूरोमुष्टिककूटशलस्तो शलकस्तथा माहिष्मदीपदे पुत्रा मल्लयुद्धजयिषिणः रङ्गमेवहे अहं दासो भवेयं वो भवन्तो जयिनो यदि अहं जयी चेद् भवदो दासान् सर्वान् करोम्यहम् सर्वेषां पश्यतां तेषां नागराणां महात्मनाम् युधि प्रतिज्ञां कृत्वाध युयुधेतैर्जयैषिभिः यदा गदं च चाणूरं गृहीत्वा यादवेश्वरः भूपृष्ठे बोधयामास शब्दमुच्चैः समुच्चरन् तदा यान्दं मुष्टिकाघ्यं मुष्टिभिर्युधि निर्गदम् ये केन मुष्टिनाथं वै बाधयामास कूडं समागतं कंसो गृहीत्वा पादयोश्च तं भुजमास्फोट्य धावन्तं शलं नीत्वा भुजनसः पादयित्वा पुनर्नीत्वा भूमिं तं विचकर्षः अततो शलकं कंसो गृहीत्वा भुजयो बलाद् निपात्य भूमा बुद्धाप्य चिक्षेप दशयोजनम् दासभावे च तान् कृत्वा तैः सार्धं यादवेश्वरः मद्वाक्यनयया वाशु प्रवर्षणगिरिं परम् तस्मै निवेद्याभिप्रायं युयुधे वानरेण सह द्विविलेनापि विंशत्याधिनैकं सोऽह्यविश्रमम् द्विविदो गिरिमुत्पाट्य शिक्षेपतस्य मूर्धनि कंसो गिरिं गृहीत्वा च मुष्टिना कं सं खादयित्वा नभोगदः धावन् कं तु अश्चूर्णितोऽस्ति दासभावम् गदस्तदा तेनैवाधगदकं सः पृष्य मूकवनम् तदः तत्र के श्रीमहादैत्यो हयरूपो घनस्वनः मुष्टिभिस्ताडयित्वा दं युद्धं कं सोमः वीर्यो मह्यं द्राघ्यं गिरिं व्ययौ शतवारम् चोज्यभार गिरिमुत्पाट्य दैत्यराड पुनस्तत्र स्थितम् रामं क्रोध संरक्तलोचनं प्रलयार्कप्रभं दृष्ट्वा न नाम शिरसामुनिं पुनः प्रदक्षिणीकृत्य तदङ्क्रियोर्निपपातः तदशान्तो भार्गवोऽपितं सम्प्राह महोग्रधृक हे कीडमर्कडीडिम्ब तुच्छोऽसिमशको यथा अद्यैव हन्मि दुष्टक्षत्रियं वीर्यमानिनं मत्समीपे धनुरिदं लक्ष भारसमं महद इदं च विष्णुना दत्तं शम्भवे त्रैपुरे युधि शम्भो करादिभप्राप्तं क्षत्रियाणां वधाय च यदि तनोषित्वं तदा च कुशलं भवेद चेदस्य कर्षणं न स्यात् खादयिष्यामि ते बलं श्रुत्वा वचस्तदा सप्ततालकम् गृहीत्वा पश्यतस्तस्य सज्जं कृत्वा जलीलया आकृष्य कर्णपर्यन्तं शतवारं तदा नः प्रत्यञ्च स्फोटनेनैव टङ्गारो भूतडित्स्वनः न नादत् न धनुः संस्थाप्य तत् नत्वा नत्वाभार्गवम् हे देवक्षत्रियो नास्मि दैत्योऽहं ते जकिङ्करः तव दासस्य दासोऽहम् पाहि मा पुरुषोत्तम श्रुत्वा प्रसन्न श्रीरामस्तस्मै प्रादा धनुश्च तथ श्रीजामदग्न्य उवध यत्कोदण्डं वैष्णवं तद्येन भङ्गीभविष्यति परिपूर्णतमो नात्र सोऽपि त्वां खादयिष्यति श्रीनारद उवाच अभनत्वा मुनिं कंसो विचरन् समदोन्मदः न कोऽपि युयुधुस्तेन राजानश्च बलिं ददुः समुद्रस्य तडेकं सो दैत्यम् नाम्ना ह्यखासुरम् सर्पकारं च शीत्कारायिर्जेलिहानम् ददर्शः आगच्छन्तम् दशन्तम् च गृहीत्वा तम् निपात्य सः चकारस्वकलेकारम् निर्भयो दैत्यराड्बली प्राच्याम् तु बङ्गदेशेषु दैत्योरिष्टो महावृषः तेन सार्धं स युयूधे गजेनापि गजो यथा शृङ्गाभ्यां पर्वतानुच्चां चिक्षेप कंसमूर्धनि कंसो गिरिं सङ्गृहीत्वा चाक्षिपत्तस्य मस्तके जखानमुष्टिनारिष्टं कंसो वै दैत्यपुङ्गवः मूर्च्छितं तं विनिर्जित्य तेनोदीचीं दिशं गदः प्राज्ञ्योदिषेश्वरम् भौमम् नरकाख्यम् महाबलम् उवाच कंसो युद्धार्थी युद्धम् मे देहि दैत्यराड अहम् दासो भवेयम्बो भवन्तो जयिनो यदि अहम् जयो चेद्भवतो दासान् सर्वान् करोम्यहम् श्रीनारद उवाच पूर्वम् प्रलम्बो युयुधे कंसेनापि महाबलः मृगेन्द्रेण मृगेन्द्रोद्रागुद्भटेन यद्धोद्भटः मल्लयुद्धे गृहीत्वा तं कंसो भूमौ निपात्यज पुनर्गृहीत्वा चिक्षेप प्राज्यो दिशपुरं प्रदि आगतो धेनुको नाम्ना कंसं जग्राहरोषधः नोदयामासदूरेण बलं कृत्वाध दारुणम् कं सस्थं नोदयामासधेनोकं सदयो जनं निपात्यचूर्णयामासतदङ्गं मुष्टिभिर्दृढैः तृणावर्तो भौमवाक्यात् कं सं नीत्वा नभोगदः दैत्य ऊर्ध्वं वै जनम् कंसो नन्दबलं कृत्वा दैत्यं नीत्वा बराद भूमौ सपादयामास वमन्दं रुधिरं मुखाद तुण्डेनाधग्रसन्तं च भगं दैत्यं महाबलं कंसो निपादयामासमुष्टिनां वज्रखादिना उद्धाय दैत्यो बलवान् शीतपक् सितपक्षोघनस्वनः क्रोधयुक्तसमुत्पद्य तीक्ष्णतुण्डोग्रसच्चतम् निगीर्णोऽपि स वज्राङ्गो तद्गले रोधकृत्यः सव्यश्चच्छर्दतं कंसं क्षदकण्ठो महाबकः कंसो बकं संगृहीत्वा महीतले कराभ्याम् भ्रामयित्वा जयुद्धे तम् विचकर्षः तत्स्वसारम्पूदनाख्याम् योद्धु कामामवस्थिताम् तामाह कंसप्रहसन्वाक्यम् काम मे शृणुपूतने स्त्रिया सार्धमहम् युद्धम् न करोमि कदाचन बकासुरस्यान्मे भ्राता त्वं च मे भगिनी भव तदोनन्दबलं कं संवीक्ष्य भौमोऽपि दर्षितः चकारसौहृदं कंसे साहाय्यार्धं सुरान्प्रति इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे कंसबलवर्णनम् नाम षष्ठोऽध्यायः ओम् अध्यायम् सेवेन् कंसजन्मादिवर्णनम् तथा दिग्विजयवर्णनम् अथ कंसप्रलम्बाद्यैरन्यैः पूर्वं जितैश्च तैः शम्भरस्य पुरम् प्रागात् स्वाभिप्रायं यद शम्बरोक्ष्यदिवीर्यो विनयुयोद्धसतेन वै चकारसौकृदं कंसे सर्वैरधिबलैः सह त्रिशृङ्गशिखरेशे देव्यो मो नामासुरो बली कंस पादप्रबुद्धोऽभूत् क्रोध समृक्तलोचनः कंसं जखानचोद्धाय प्रबलैर्दृढमुष्टिभिः कंसस्य मुष्टिभिः सोऽपि निःसत्त्वो भूत् कृत्वा कंस प्राप्तं माम् प्रणनामः हे देवयुद्धकाङ्क्षोऽस्मि क्वयामि त्वं वदाचुमे मे प्रोवाच तं तदा गच्छ दैत्यबाणं महाबलं प्रेरितश्चेदिकं साख्यो मया युद्धदिदृक्षुणा भुजवीर्यमदोन्नद्धश्रोणिताख्यं पुरं व्ययौ बाणासुरस्तत्प्रतिज्ञां श्रुत्वा क्रुद्धो ह्य भून्महान् तथा डलत्ताम् भूमध्ये जगर्जफनवद्बलि आजानुभूमिकां लत्तां पादालान्तमुपागताम् कृत्वा तमःबाणस्तु पूर्वं चैनां समुद्धर श्रुत्वा वचकराभ्यां तामुज्जहारमदोत्कटः प्रचण्डविक्रमकं सखर दण्डं तजौ यथा तया चोद्धृतयोत्खादा लोकाः सप्ततला दृढाः निपे दुर्गिर्योनेकाविचे दुर्धृदिग्गजाः योद्धुम् तमुद्यतम् बाणम् दृष्ट्वा गत्य वृषध्वजः सर्वम् सम्बोधयामास प्रोवाज बलिनन्दनम् कृष्णम् विना परं चयनम् भूमौ भार्गवेण वरं दत्तं धनुरस्मैजवैष्णवम् श्रीनारद उवाज इत्युक्त्वा सौहृदं हृद्यं सद्यो वै कंसबाणयोः चकारपरया शान्त्या शिव साक्षान्महेश्वरः अथ कंसो दिक्प्रतीच्यां श्रुत्वा वत्सं महासुरं तेन सार्धं स युयु देवसरूपेण दैत्यराड पुच्छे गृहीत्वा तं वत्सम् बोधयाम स वशे कृत्वाथ तं शैलं म्ले च देशांस्तदो ययौ मन्मुखात् कालयवन श्रुत्वा दैत्यं महाबलं निर्ययौ सम्मुखे योद्धुम् रक्तदश्मश्रोर्गदाधरः कंसो गृहीत्वा स्वां लक्षभारविनिर्मिताम् प्राक्षिपाद्यवनेन्द्राय सिंहनादमधाकरोद गदा युद्धमभूत्खोरं तदा हि कंसकालयोः विस्फुलिङ्गान् क्षरं त्यौ द्वे गदे चूर्णी बभूवधुः कंसकालं सङ्गृहीत्वा पादयामास पुनर्गृहीत्वा निष्पात्यमृततुल्यं चपारः बाणवर्षं प्रकुर्वन्तीं सेनां तां यवनस्य च गदया बोधयामासकं दैत्याधिपो बहि गजां स्तुरबान् सुरधान् वीरान् भौमौ निपात्य जगार्जखनवद्वीरोगदा युद्धे मृद्धाङ्गणे ततश्च दुद्रुवुर्मास्त्यकृवा स्वं स्वमरणं परं भेदान् पलायिदान् म्लयच्छान्न जखानाधनिधिमान् उच्चपादोदीर्घजानुस्तम्भो रुर्लखिमा कटिः कपाडवक्षापीनां सः पुष्ठ प्रांशुर्बृहद्भुजः पद्मनेत्रो बृहत् केशोरुणवर्णोऽसिदाम्बरः किरीडी कुण्डलीहारी पद्ममालीलयार्करुक खड्गीनिषङ्गि कवची मुद्गराढ्यो धनुर्धरः मदोत्कडोययौ जेतुम् देवान् कं सोमरावतीं चाणूरमुष्टिकायिष्टचलतोश्शलकेशिभिः प्रलम्बेन भगेन विद्विविधेन समवृदः तृणावर्ताककूटैश्च भौमबाणाख्य शम्बरैः व्योमधेनुगवत्सैश्च रुरुधे सोमरावदीम् कंसा दीनागदान् दृष्ट्वा शक्रो देवाधिपस्वराड सर्वैर्देवनैर्सार्धं योद्धुं क्रुद्धो विनिर्ययौ तयोर्युद्धमभूत्खोरं तुमुलं रोमहर्षणं दिव्यैश्च शस्त्रसंहृतैर्बाणैस्तीक्ष्णै स्फुरत्प्रभैः शस्त्रान्धकारे सञ्जाूढो महेश्वरः चिक्षेपवज्रम् कंसाय शतधारम् तडिद्युति मुद्गरेणापि तद्वज्रम् तदा महासुरः पपादकुलिशं युद्धे छिन्नधारम् त्यक्त्वा वज्रं तदा वज्रे खड्गं जग्राह रोषदः कं सं मूर्ध्नि तदाडाशुनादं कृत्वा दभैरवम् सक्षदो नाभवत् कं सोमालापद इव द्विपः गृहीत्वा सगदां गुर्वीमष्ट धादुमयीं दृढां लक्षभारसमम् कंसचिक्षेपेन्द्राय दैत्यराड तां समां पदवीं वीक्ष्य जग्राहास्युपुरन्दरः पदश्चिक्षेप दैत्याय वीरो नमुचिसूदनः चचारयुद्धे वितलन्नरीन् मादलिसारथिः कंसो गृहीत्वा परिहम् तधाडांसे सुरद्विषः तत्प्रकारेण देवेन्द्रः क्षणमूर्च्छामवापसः कं सम्मरुद्गण सर्वे गृध्रपक्षै स्फुरत्प्रभैः बाणौखैश्चादयामासु वर्षास्योर्यमि वाम् बुधः दोत्सहस्रयुधो भीरश्चापम् तम् कारयन्महुः तदा कान् कालयामास बाणैर्बाणासुरो भजी बाणं च वसवो रुद्रा आदित्या ऋभवः सुराः जघ्नुर्नानाविधैः शस्त्रै सर्वतोद्रिम् समापदाः तदोभौमासुरप्राप्तप्रलम् पाद्य सुरैर्नदन् तेन नादेन देवास्ते निपे दुर्मूर्च्छिदारणे उद्धाय श्युतदाचक्रो जगामारुह्य तत्त्वदृक नोदयामास्तुकंसाय मत्तमैरावदम् गजम् अङ्गुष्यास्पालनात्क्रुद्धम् पादयन्तम् शुण्डादण्डस्य भूत्कारैर्मर्दयन्तमिदस्तदः स्रवन्मदम् च दुर्दन्तम् हिमाद्रिमिव दुर्गमम् ननन्दम् शृङ्खलां शुण्ठाम् चालयन्तं मुहुर्मुहुः कडाढ्यम् किङ्गिणीजालरत्नकम्बलमण्डितम् गोमूत्र च यः सिन्दूरकस्तूरी द्वितीयमुष्टिना शक्रम् सजघानरणाङ्गणे तस्य मुष्टिप्रहारेण दूरे शक्रपपातः जानुभ्याम् धरणीम् स्पृष्ट्वा गजोपि विह्वलो भवद पुनरुद्धाय नागेन्द्रो दन्तैश्चाहत्य दैत्यपम् शुण्डादण्डेन चोद्धृत्य चिक्षेपलक्षयो जनं पतितोऽपि स वज्राङ्गः किञ्चित्तु व्याकुलमानसः स्फुरदोष्ठोऽधिरुष्टाङ्गो युद्धभूमिं समाययौ कम्सो गृहीत्वा नागेन्द्रं सन्निपात्यरणाङ्गणे निष्पीड्य शुण्डान्तस्यापि दन्तांश्चूर्णी चकारः अथ वदो नागो दुद्रवाशुरणाङ्गणाद निपातयन्महावीरम् देवधानीम् पुरीम् गदः गृहीत्वा वैष्णवम् चापम् सज्जम् कृत्वाध दैत्यराड देवान्विन्द्रायमास बाणौकैश्च धनुस्वनैः तदसुरास्तेन निहन्यमाना विद्युद्ध्रुवुर्लीनधियो दिशन्ते के जिद्रणे मुक्तशिखा बभूवुर्भिदा स्म युद्धं युधिवादिनस्ते केचित्तद्धा प्राञ्जलयो दि दीनवत्सन्यस्त शस्त्रा युधिमुक्तपच्छाः साधुमरणे कंस नृदेवसम्मुखे गतेक्षिधा केचिदीवविह्वलाः युद्धं स देवान् प्रकदान्निरीक्ष्यतान् नीत्वा जंहासनमादपत्रवद सर्वैस्तदा दैत्यगणैर्जनाधिभः स्वराजधानीं मधुरां समाययौ यदि श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे कंस दिग्विजयवर्णनं नाम सप्तमोऽध्यायः ॐ